ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 29 नैन् अर्जुनोपाख्यानं वसिष्ठ उवाच जमदग्निस्तदोभूयस्तमुवाच रुषान्वितः ब्रह्मस्वं नापहर्तव्यं पुरुषेण विजानदा प्रसह्य रदो पापमाप्स्यसि दुर्मदे आयुर्जाने परिक्षीणं न चेदे तत्करिष्यति बलादिच्छसि यन्नेदुं तन्न शक्यं कथञ्चन स्वयं वा यदि सायुच्येद्विनशिष्यति पार्थिवः दानं विनापहरणं ब्राह्मणानां तपस्विनां सदाशोर्जुनाधन्यकोन्विच्छति जिजीवीषुक्त संक्रुद्धस मंद्री कालचोदी बद्वा तम गाँ दृढ़ जमदग्निधक्रोधा भावी कर्म प्रचोदी रुरोध तं यथाशक्रिविकर्षन्तं पयस्विनीं जीवन्नप्रतिमोक्ष्यामि गामेनामित्यमर्षिदः जग्राः सुदृढं कण्ठे वाहुभ्यां तां महामुनिः तथ क्रोधपरीदात्मा चन्द्रगुप्तोदिनिर्घृणः स्वसैनिकान् उत्सारयध्वमित्येनमादिदेशस्वसैनिकान् अप्रधृश्यतमं लोके तं ऋषिं राजकिङ्कराः भर्त्राज्ञया प्रसह्यैनं परिवृसमन्ततः दण्ढैकषाभिर्लगुडैर्विनिघ्नश्च मुष्टिभिः दे समुत्सारयन् धेनोत्सुदूरतरमन्दिकात् स तथा हन्यमोनोऽव्यधिदः क्षमयान्वितः न च क्रोधाक्रोधनत्वं सदो हि परमं धनं स च शक्दस्वतपसा संहर्तुमपि रक्षितुं जगत्सर्वं क्षयं तस्य चिन्तयन्न प्रचुक्रुधे स पूर्वं क्रोधनोत्यर्थं माधुरर्थे प्रसादितः रामेणाभूततो नित्यं शान्त एव महातपाः सहन्यमानसुभृशं चूर्णिताङ्गास्ति बन्धनः निपपादमहातेजा धरण्यां गदचेतनः तस्मिन्मुनौ निपतिते स दुरात्मा विशङ्घितः किङ्करानादिशीघ्रं धेनोरानयने बलाद् तदत्सवत्सां ता धेनुं बध्वापाशार्दृढैर्नृपः कशाभिरभिहन्य चकृषुश्च निनीशया आकृष्यमाणा बहुभिक्षषाभिर्लगुडैरपि हन्यमाना भृशन्तैश्च चुक्रुधे च पयस्विनी व्यथिताधिकशापाधैक्रोधेन महतान्विता आकृष्य पाशान् सुदृढान् कृत्वात्मानमोचयद ममोचयद सा सर्वतोऽभिवृता बलैः हुङ्हारवं प्रकुर्वाणा सर्वदोह्यपतदृशा विषाणखुरपुच्छाग्रैरभिहत्य समन्ततः राजमन्त्रिबलं सर्वं व्यद्रावयदमर्षिदा विद्राव्यकिङ्करान् सर्वां स्तरसैव पश्यदां पश्यतां सर्वभोधानां गगनं प्रत्यपद्यत तदस्ते भग्नसङ्कल्पात् सम्भग्नक्षतविग्रहाः प्रसह्य बद्ध्वा तद्वत्सं जग्मुरेवादिनिर्घृणाः पयस्विनीं गृहीत्वा किङ्करैः स पापस्तरसा राज्ञसन्निधिं समुपागमत कृत्वा समीपं नृपदे प्रणम्यास्मै प्रशंसकृद तद्वृत्तान्तमशेषेणव्या चचक्षे ससाध्वसः यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोदारादर्जुनोपाख्यानिश्त ओम।